आ नो॑ भद्रा क्रतवो यन्तु विश्वतो दब्धासो अपरीतास उ॒द्भिद देवानो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे आनो भद्रा क्रतवो यन्तु विश्वतो दब्धासो अपरीतास उद्भिदा देवानो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे आनो नो भद्रा द्रा क्रतवो॒ यन्तु विश्वतो अपरीतास उ॒द्भिदा देवानो यथा सदमिद्वृधे असन्नप्रायुवो दिवे दिवे